श्रीमद्भागवत् महापुराणं दशंस्कन्ध अथैकषष्टितमोऽध्यायः भगवान् की सन्तति का वर्णन् तथा अनिरुद्ध के विवाह मे रुक्मिणि का महाराजानां श्रीशोकुवाच एकैकसस्ता कृष्णस्य पुत्रान् दशस्य दशा बलाः अजीजनन्नमान् पितुः सर्वात्मसम्पदा गृहादनपगं वीक्ष्य राजपुत्रोचितं सितं प्रेष्ठं न मंसत स्वं स्वं न तत्तन्त्वविदश्यः चार्वब्जकोशवदनायत बाहुनेत्र सप्रेमहासरसवीक्षितवल्गुजल्पैः सम्मोहिता भगवतो न मनो विजयितुं तैर्विभ्रमै समसकन्वनिता विपुन्नः स्मायावलोकलं वदर्शितं भावभारी भ्रूमण्डलप्रहितसौरतमन्त्रसौण्डय पत्न्यास्तु षोडशसहस्रमनङ्गबाणै यस्येन्द्रियं विमचितुं कर्णै न शोको इत्थं रमापतिमवाप्य पतिं श्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् भेजुर्मुदा विरतमेदितयानुराग हासावलोकनवसङ्गमलालसाध्यं प्रत्योन्दगम्मासनं बरार्हणं पादशौच ताम्बूलविश्रमणवीजनं गन्धमाल्यै केशप्रसारशयन्नस्नपनोपहार्यै दासी सतायपि विभोर्विदुष्म यादशपुत्राणां कृष्णस्त्रीणां पुरोदिताः अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते चारुदेष्णसुदेष्णश्च चारुदेहस्य भीर्यवान् सुचारुश्चारुगुप्तश्च भद्रचारुसथा परः चारुचन्द्रो विचारुश्च चारुश्च दशमो तद्युम् न प्रमुखा जाता रुक्मिण्यां नावमापितुः भानुशुभानुश्वरभानुप्रभानुर्भानुमास्तथा चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः श्रीभानु प्रतिभानुश्च सत्यभामात्मजादश साम्ब सुमिद्रपुरजे सद्य च सहस्रजे विजयश्चित्रकेतुश्च वसुमान द्रविण कृतौ दाम्बवत्या सुता चेते साम्बाद्यापितृसम्बताः धीरश्चन्द्रो सुसेनश्च चित्रगुरुवै भवान् विष आमाशङ्कुर्वशु श्रीमान् कुन्तीर्नाग्नजितेशुता धृतकविर्विशो वीरशुबाहुर्भद्रयैकुलः शान्तिर्दर्श पूर्णमाशकालिन्द्या सोमकोत्वरः रघोषो गात्रवन्सिंहो बलप्रबलऊर्ध्वगः मादृयाः पुत्रा महाशक्तिः सह ओजो पराजितः मृको हर्षोर्निलो गृध्रो वर्धनोन्नाद एव च महाश पावनो वह्निर्मृत्यविन्दात्मजासुरीम् सङ्ग्रामजिद्विहस्येन शूरप्रहननोजित् जय सुभद्रो भद्राया वाम आयुष्यसत्यकः दीप्तेमास्तामृतप्ताद्यां रोषिन्यास्तनयाहरे प्रद्युम्नाच्चानिरुद्धो भून् रुं रुक्मवन्त्यां महाबलः पुत्र्यां तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे एतेषां पुत्रपौत्रास्य बभूवु कोटिशोदृप मातरकृष्णजातानां सहस्राणि च षोडश